श्रीमद्भागवत् महापुराणं दशमस्कन्ध सप्ताशीतितमोऽध्यायः सदिव मनस्त्रीवृत्यै विभात्य सदामनुजात् सदभिमृसन्त्यसे समिदमात्मतयात्मविदः न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनोप्रवेष्टमिदमात्मतया वसितं तव पर्यै चरन्त्यखिलसत्त्वनिकेतया तौ उत पदाक्रमन्त्य विगळय्य शिरोनिरृतेः परिवयसे पशुनिम गिरा विवधा न पितां त्वयि कृतसौहृदाः स्वयं कर्णः स्वराडखिलकारकशक्तिधर तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः वर्षभुजोऽखिलक्षीतिपतेरिव विश्वसिजो विदधति यत्र ये त्वधिकृता भवता चकिताः स्थिरचरजातयः स्थूरजयोऽर्थनिवेत्ययुजो विहर उदेक्षया यदि परस्य विमुक्तततः न परमस्य कश्चित् परो न परश्च भवेत् यत् इवापदस्य तव शून्यतुलां दधतः अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगतास्तर्हि न शाचितेति निमो ध्रुवनेतरताम् अजनि च यन्मयं नियन्ति भवेत् सममनुजानतां जनमतं मतदुष्टतया न घटत उद्भवः प्रकृतिपुरुषयो रजयोरुभयुजा भवन्त शुभ्रतो जलबुद्बुदवत् त्वयि त इमे ततो विविधनां गुणैः परमे सरित इवार्णवे मधुने लल्यो रसेशरसा दशोतो मायया भ्रममी तैः सुयो भाव दधति भावमनुप्रभुवं कथमनुवर्ततां भवं भयं तव यद्धृकुटिः सृजते मुहुस्त्रिले मृभवच्छरणेषु भयं विजितशिशिकवायुभिरदान्तमनन्तुरङ्गं य इह्व यतन्ति यन्तु मतिलोलमुपायखिदः दशनशतान्विताः श्रमवहाय गुरोश्चरणं वणिजैवायसन्त्यकृतकर्णधरा जलउधौ स्वजनसुतात्मदार धनधामधरा सुरथे त्वयि सतिं किं नृणां श्रेतयात्मनि सर्वरसे इति सदजानतां मिथु नतो रते चरतां सुखयति कोण्हविं स्वविहते स्वनिरस्तभगे धुविपुरुपुण्यतीर्थसदनान् ऋषयो मृमदां तव उत भवत्पदाम्बुजहृदो घभिदङ्जलाह ददति सकृन्मनस्त्वयीय आत्मनि नित्यसुखे न पुनरुपासते पुरुषसार हराहार हरा, हरा सत इदमुत्थितं सदति चेन्ननो तर्कहतं व्यभिचरति क्व च क्व च मृषा विकल्प ततोभयुक्त व्यवहितये विकल्पयसुतोऽन्धपरम्परया भ्रमयति भारतीत उर्वृत्तिथिभिरुग्धान न यदिदमग्र आश न भविष्यतो भविष्यदतो निधनादनुमेतमन्तरा त्वयि विभाति मृशैकरते अथ उपमीयते वनो मनोविलासमृतमृत्य मृतमृत्य त्यभुजाः स यजया त्वमजा मनुषी शयितगुणाश्च जुजुषन् भजति सरूप तां तदनुमृत्योमपेतभगः तमुत जहासीतामहिरिव त्वच मातभागो महसि महीयसेष्टगुणिते परिमेयभागः यदि न समुद्धरन्ति यतयो हृदि कामजटां दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः असुत्रेपयोगिनामुभयोऽप्यसुखं भगवन् ननपगताकादनधीरूढपदाद्भवतः तदवगमेन वेत्ति भवदुद्धभुन् शुभाशुभयो गुणनिगुणान्वयास्तर्हि देहभृतां च गिरः अनियुगमन्वहं सगुणगीतपरम्परया रमणभितो यत त्वम् अपवर्गगतिर्मनुजये द्योपदयं द्यूपतयेव तेन ययूरन्तम् अनन्ततया त्वमपि यदन्तराडनिचयाननुसावरणाः ख इव रजांसि वान्ति वयशास तन्निरसनेन भवन्निधानाः ी भगवानुवाच इत्येतद्ब्रह्मण पुत्रा अश्रुत्यात्मानुशासनं स नन्दनमथा नर्चुः सिद्धा ज्ञात्वाऽऽऽत्मनो गतिम् इत्यशेषसमाम्नाय पुराणोपनिषदृशः समुद्धृतः पूर्वजाते मयाले महात्मभे। तं चैतद्ब्रह्मदायाद श्रद्धे आत्मानुशासनम् धार्यं सर्गां कामम् कामानाम् भर्जनम् गृह्ण श्रीशोकुवाच एवं सर्शनादिष्टम् गृहीत्वा श्रद्धेयात्मान् पूर्णश्रुतधरो राजन्नाहवीरव्रतो मुनिः नारदुवाच नमस्तस्मै भगवते कृष्णायामलकीर्तये यो धत्ते सर्वभूतानां अम्भवा यो शतीकलाः इत्याद्यमृषिमानम्य तत्स्य स्यांश्च महात्मनः ततो गादाश्रमं साक्षात् पितृद्वैपायनस्य सभाजितो भगवता कृता परिग्रह तस्मै तद्वर्णयामाश नारायणमुखाश्रुतम् इत्येतद्वर्णितं राजन् जन्न प्रस्नकृतस्तया यथा ब्रह्मण्यनिर्देश्ये निर्गुणेऽपि मनश्चरेत् यो स्योत्प्रेरक आदिमध्यनिधने यो व्यक्तजीवेश्वरो जिष्टभेदमनुप्रविश्य अर्षिणा चक्रे पुरशासिताः जं सम्पद्य जहात्यजामनुषैः सुप्तकुलायं यथा तं कैवल्यनिरस्त्ययोनिमभयं ध्यायेदत्स्रजं हरिं श्रीमद्भागवते महापुराणे पारहिंसां चयितायां दसंस्कन्धे उत्तरार्धे नारदनारायणसंवादे वेदस्तु तर्नाम सप्तशीति तमोऽध्यायः